एवं विनिश्चित्य ततः कुन्तीपुत्रो धनञ्जयः अनुप्रविश्य राजानमापृच्छ्य च विशाम्पते धनुरादाय संहृष्टो ब्राह्मणम् प्रत्यभाषत ब्राह्मणा गम्यताम् शीघ्रम् यावत्परधनैषिणः न दूरे ते गताः क्षुद्रास्तावद्गच्छावहे सः यावन्निवर्तयाम्यद्य चौरहस्ताद्धनम् तव सोन्दसत्यमहाबाहुर्धन्वी वर्मी रथीध्वजी शरैर्विध्वस्यतांश्चौरा नवजित्य च तद्धनम् ब्राह्मणम् समुपाकृत्य यशः प्राप्य च पाण्डवः ततस्तद्गोधनम् पार्थो दत्त्वा तस्मै द्विजातये आजगामपुरम् वीरः सव्यसाची धनञ्जयः सोऽभिवाद्य सर्वान् सर्वैश्चाप्यभिनन्दितः धर्मराजमुवाचेदम् व्रतमादिश मे प्रभो समयः समतिक्रान्तो भवत्सन्दर्शने मया वनवासो गमिष्यामि समयो इत्युक्तो धर्मराजस्तु सहसा वाक्यमप्रियम् कथमित्यब्रवीद्वाचा शोकार्तः सज्जमानया युधिष्ठिरो गुडाकेशं भ्राता भ्रातरमच्युतम् उवाच दीनो राजा च धनञ्जयमिदं वचः प्रमाणमस्मि यदि मत्तः शृणु वचोनघ